श्रीमद्भागवत् महापुराणं दशमस्कन्ध अथ द्विसप्ततितमोऽध्यायः पाण्डवो के राष्ट्रयज्ञ का आयोजन और्जरासन्धका उद्धार शेषोकुवाच एकदा तु सभामध्ये आश्रितो मुनिभिवृतः ब्राह्मण्यत्रियैर्वैश्यैर्भ्रातृभिश्च युधिष्ठिरः आचार्यैः कुलवृद्धैश्च ज्ञातिसम्बन्धिबान्धवैः त्रिण्वतामेव चैतेषामाभास्येदमुवाच यधिष्ठिरुवाच क्रतुराजेन गोविन्दराजसूयेन पावनिः यक्षे विभूतिर्भवतस्तत्त्वसम्पादेन प्रभो तत्पादुके अविरतं परिये चरंते देवा देवा ये चरन्ति ध्यायन्त भद्रनशुने सुचयो गृणन्ति विन्दन्ति ते कमलनाभभवापुवर्गम् आशासते आसासते त आशीष ईश नान्ये तद्देवदेव भवतश्चरणारविन्द देवानुभावमिह पश्यति लोक एष ये त्वां भजन्ति न भजन्त्युतवि बोभयेषाम् निष्ठां प्रदर्शय विभो कुरु शिञ्जयानाम् न ब्रह्मण स्वपरभेदमतिस्तव स्यात् सर्वात्मनः समदिश स्वसुखानुभूते संसेवतां सुरतरोरिवते प्रसाद सेवानरूपमुदयो न विपर्ययोद्रीभगवानुवाच सम्यग् व्यवसितं राजन्भवता सदृकर्षणः कल्याणीयेन ते किर्ते लोकाननुभविष्यति ऋषीणां पितृदेवानां श्रेदामपि न प्रभो सर्वेषामपि भूतानाम् अप्सितः क्रतुराडयम् विजित्यनुपतिन् सर्वान् कृत्वा च जगतिं वशे संहृत्य सर्वसंहारान्नाहरस्व महाकृतुम् एते ते भ्रातरो राजन् लोकपालांसु संभवा जितोऽस्म्यात्मवृता तेऽहं दुर्जयो यो कृतात्मभिम् न कश्चिन्मत्परं लोके तेजसा यः सा श्रिया विभूतिर्विर्वाभिभवेदेवोऽपि किमु पार्थिवः श्रीशुकुवाच निशम्य भगवद्गीतं भ्रातिद्विग्विजयै युक्तं युक्त विष्णुतेजोपविहितां स देवं दक्षिणस्यामादिशंसृञ्जयै दिशि प्रतीत्यां नकुलमुदित्यां शव्यशाचिनं प्राच्याम्बिकोदरं मस्यैकेकेयै स मद्रकै ते विजित्य नृपान्वीरा आजहुर्दिग्भ्यम् अजातसत्रवे भूरि द्रविणम् नृपयक्षते श्रत्वाजितं जरासन्धं निपते ध्यायतो हरिः आहोपायं तमेवाद्य उद्धवो यमुवाच भीमसेनोऽर्जुन कृष्णो ब्रह्मलिङ्गराश्रयः जग्मलगिरिव्रजम् तात बृहद्रथसुतो यतः ते गत्वा तेथ्यमेलायाम् गृहेषु ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्गिनः राजन् विध्यतिथिन् प्राप्तान् अर्थितो दुर्मागतान् तन्न प्रयक्ष भद्रं ते यद्वयं किं दुर्मरसं तक्षूणां किं कार्यमसाधवि किं न देयं वदान्यानां कपरसमदर्शिनाम् यो नित्येन शरीरेण शतां ज्ञेयं यशो ध्रुवं नाचिनोति स्वयं कल्पसवाच्य शोचयैव च हरिश्चन्द्रोरन्ति देवम् उत्सृत्यशिविर्बलिः व्याधकपोतो बहवो ह्यध्रुवेण ध्रुवं गताः